नारदपुराणम् पूर्वार्थम् अध्यायम् 20 नारद उवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग सर्वकर्मवरिष्ठं च ध्वजधारणं यस्तु परो मुने त्वयो कृतस्तस्य चरितं विस्तरेण ममादिश सनक उवाच शृणुष्वैकमनः पुण्यमितिहासं पुरातनं ब्रह्मणा कथितम् मह्यं सर्वपापप्रणाशनम् आसीत् पुराकृतयुगे सुमधिर्नाम भूपतिः सोम वंशोद्भव श्रीमान् सत्पदीपै सप्तद्वीपैकनायकः धर्मात्मा सत्यसम्पन्नः शुचि वंश्योतिथिप्रियः सर्वलक्षणसम्पन्नः सर्वसम्पद्विभूषितः सदा हरिकथासेवी हरिपूजापरायणः हरिभक्तिपराणाम् च शुश्रूषुर्निरसङ्कृतिः पूज्यपूजारथो नित्यम् समदर्शी गुणान्वितः सर्वभूतहितः शान्तकृतज्ञकीर्तिमांस्तथा तस्य भार्या महाभाग सर्वलक्षणसंयुता पदिव्रता पदिप्राणा नाम्रा सत्यमधिर्मुने तावुभौ दम्पती नित्यं हरिपूजापरायणौ जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ अन्नदानरदौ नित्यं जलदानपरायणौ तडागारामवप्राधौ न संख्यातान् विदेः साधु सत्यमधिर्नित्यं शुचिर्विष्णु गृहे सती नृत्यत्यन्तसन्तुष्टा मनोज्ञामञ्जुवादिनी सोऽपि राजा महाभागो द्वादशी द्वादशी दिने ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम् एवं हरिपरं नित्यं राजानं धर्मको विधं प्रियां सत्यमधिं चास्य देवा अपि सदास्तुवन् त्रिलोके विश्रुप्तौ ज्ञात्वा दम्पती धर्मको विधौ ययौ बहुभिशिष्यैर्द्रष्टुकामो मायान्तम् मुनिम् श्रुत्वा सदु राजा विभाण्डकम् प्रद्युद्य हौ सपत्नीकः प्रजाभिर्बहुविस्तरम् कृतातिथ्यक्रियं शान्तम् कृतासनपरिग्रहम् राजोवाच भगवन्कृदकृत्योऽस्मिं त्वदभ्यागमनेन वै सदा मायमनं सन्तं प्रशंसन्ति सुरवावहम् यत्र स्यान्महदां प्रेम तत्र स्युः सर्वसम्पदः ते जकीर्तिर्धनं पुत्रा यदि प्राहुर्विपश्चितः तत्र वृद्धिमुपायान्ति श्रेयांस्यनुदिनं मुने यत्र सन्तः प्रकुर्वन्ति महदीं करुणां प्रभो यो मृद्ध् मूर्ध्नि धारये दुह्यन्महत्पादजलं रजः सस्नादसर्वतीर्थेषु पुण्यात्मानात्र संशयः मम पुत्राश्च दादाश्च सम्पत्त्वयि समर्पिताः ममाज्ञापय विप्रेन्द्र प्रियं करवाणि दे विनञ्च भूपं सनिरीक्ष्य मुनीश्वरः स्पृशन् करेण तं प्रीत्युवाचादिहर्षिदः पृशिरुवाच गजन्यदुः भवदा तत्सर्वं त्वत्कुलोचितं विनया वनद बहुश्रेयो लभेदिह धर्मश्चार्धश्च कामश्च मोक्षश्च नृपसत्तम विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनां प्रीतोऽस्मि तव भूपालसन्मार्गपरिवर्तिनः स्वस्तिदे सदतं भूयाद्यत् पृच्छामि तदुच्यताम् पूजा बहुविधाः सन्ति हरितुष्टिविधायिकाः तासु नित्यं द्वाचारोपे वत्से त्वं सदोद्यतः भार्याभि तव साध्वीयं नित्यं नृत्यपरायणः किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि राजोवाच शृणुष्व भगवन् सर्वं यत्पृच्छसि वदामि तद् आश्चर्यभूतं लोकानामावयोश्चरितं द्विह अहमासं पुरा शूद्रो माली निर्नामसत्तम मालिनिर्नामसत्तमकुमार्गनिरतो नित्यं सर्वलोकाखिदे रथः पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः गोधनश्च ब्रह्म चौरसर्वप्राणिवधेरतः नित्यं निष्ठुरवक्त्रा च चा, चापि वेश्यापरायणः एवं स्थित कियत्कालमनाहत्यं महदृचः सर्वबन्धुपरित्यक्तो दुःखी वनमुपागतः मृगमांसाशनो नित्यं तथा पान्धा विलुम्पकः एकाकी दुःखबहुलो न्यवसन्नर्जने वने एकदाक्षुत्परिश्रान्दो निदाकार्थः पिपासिदः जीर्णं देवालयं विष्णोरपश्यं विजने वने हंसकारण्डवाकीर्णं तत्समीपे महत्सरः पर्यन्दवनपुष्पौ पच्चादिदं तन्मुनीश्वर अपि तत्रपानियं तत्र पानीयं तत्तीरे विगतश्रमः फलानि जग्ध्वा शीर्णानि स्वयं क्षुच्य निवारिता तस्मिन् जीर्णलये विष्णो नर्निवासं कृतकवानहम् जीर्णस्फुटितः सन्धानं तस्य नित्यमकारिशं पर्णैस्तृणैश्च ष्ठैश्च काष्ठैर्भृतं सम्यक् प्रकल्पितं सुश्रार्थं सु, तु तद्धर्मया लिप्ता मुनीश्वर तत्राहं व्याधवृत्तिस्तो हत्वा बहुविधान् मृगान् आजीवं वर्तयन्नित्यं वर्षाणां विंशतिस्थितः अध्येयमागदासा द्विविन्द्यदेशसमुद्भव निषादकुलजाभिप्रा नान्माख्यादावकोकिलात् बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहात् श्रोतृकर्मपरिश्रान्ता शोचन्दी स्वकृतं यखं दैवयोगाकमायादा भ्रमन्ति विजने वने ग्रीष्मतापार्दिदा बाह्ये स्वान्दे चाध्ये इमां दुःखार्दिदां दृष्ट्वा जादामे मे विपुला दया दत्तमया जलं चास्ये मां सं वन्यफलानिज गतश्रम त्व ब्रह्मन्मया पृष्ठा यथा तथम् महामुने नान् मा वोकिला दारुकस्य सुधा चाकं विन्द्यपर्वतवासिनी परस्वहारिणी नित्यं सदा पैशून्यवादिनी पुंश्च दोत्येव मुक्त्वादु बन्धुवर्गैः समुचिता कियत्कालं तदपत्या भृदाखं लोकनिन्दिता दैवात्सोऽपिगतो लोकं यमस्यात्र विहाय मां कान्दारे विजने चैका भ्रमन्ति दुःखपीडिता प्राप्ता जीविताकं त्वया अधुना इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयद ततो देवालये तस्मिन् दम्पती भावमाश्रितौ तिदौ वर्षाणि दश च आवां मांसफलाशिनौ ये कदा मद्यपानेन प्रमत्तौ निर्भरै मुने तत्र देवालये रात्रौ मुदितौ मांसभोजनादत्तनुवस्त्रापरिज्ञानौ नृत्यम् चकृमोहितौ प्रारब्धकर्म भोगान्धमावां युगपदागदौ यमदूतास्तदायादापाशहस्ता भयङ्कराह नेदुमावां नृत्यरदौ सुधोरां यमयादनम् तदप्रसन्नो भगवान् कर्मणा मम मानदा सधसंस्कार संनिधेन कृतेन न स्वदूतान् प्रशयामः स दिशो विधिमिरविप्रकुर्वन्तस्वेन वी तेजसा भयंकरान्याश हस्तान् दं शृणो यमकिङ्करान् आवयो ग्राहणे यत्तान् ऋजुकृष्णपरायणाः विष्णुदूदाचुः भो भो क्रूरा दूराचाराविवेकपरिवर्जिताः मुञ्चध्वमेधौ निष्पापौ दम्पती हरिवल्लभौ विवेकस्त्रिषु लोकेषु सम्पदमाधिकारणम् अपापे पाप धीर्यस्तुतं विद्यात् पुरुषाधमं पापे त्वपाप धीर्यस्तु तं विद्या दधमाधमं यमदुदाजुः यमे वोक्तं किं त्वेदौ पापि सतमौ यमे न पापि नो दण्ड्यास्तनेष्यामो वयं त्वमौ श्रुतिप्रणिहिदो धर्मो ह्यधर्मस्तद्विपर्ययः धर्म धर्म विवेकोऽयं तन्यष्यामो यमान्तिकं ये दच्छ्रुवादिगुपिदा विष्णुदुधा महौजसः प्रत्युजुस्तान्यमभटानधर्मे धर्ममानिनः विष्णुदूत ऊचुः अहो कष्टं धर्म दृशमधर्मस्पृशदे सभां सम्यग् विवेकशून्यानां निधानं ख्यापदां महद तर्काणाद्यविशेषेण नरकाध्यक्षतां गताः योऽयं किमर्थमद्यापि कर्तुं पापानि शोध्यमाः स्वकर्मक्षयपर्यन्तं महापादकिनोऽपि च तिष्ठन्ति नरके कोरे यावच्चन्द्रार्कतारकं पूर्वसंचित् पापानामदृष्ट्वा निष्कृतिं वृथा किमर्थं पापकर्माणि करिष्येथ पुनः पुनः प्रणिहितो धर्मसत्यं सत्यं न संशयः किन् चरितान् धर्मान् प्रवक्ष्यामो यथा तथं येदौ पविर्मुक्तौ हरिशुश्रूषणे रतौ हरिणात्रायमाणौ च मुञ्चध्वमविलम्बितम् येषा च नर्तनं चक्रे तथैव ध्वजरोषणम् अन्धकाले विष्णुगृहे तेन निष्पापदां गतौ अन्धकाले दुयन्नामश्रुत्व उक्त्वापि च वै सकृत लभते परमं स्थानं किमु शुश्रूषणे रदाः युक्तो वा युक्तो वा प्युपपादकैः कृष्णसेवी नरों देवि लभदे परमां गतिं यदीनां विष्णुभक्तानां परिचर्यापरायणाः ते दूतात्सहसायान्ति पापिनोऽपि परां गतिम् मुहूर्तं वा मुहूर्तार्थं यस्तिष्ठोद्धरिमन्दिरे सोपियादि सोपियादिपरम स्थान कि मुद्द्र किंश वत्सरा उपलेपनकर्ता सर्जनपरायण ये दौ हरीगृह निं जीर्ण शीर्णाधि जलसेनकर्ता दीप दौ हरीम कथमेद यादना भोग विष्णु विष्णुदूतास्ते चित्वा पार्शांस्तदैव हि आरोप्या वा विमानाग्र्यम् ययोर्विष्णो परमपदम् तत्र समीप्यमापन्नौ देवदेवस्य चक्रिणः दिव्यान् भोगान् भुक्तवन्तौ तावत्कालं मुनीश्वर दिव्यान् होगां सुतत्रापि भुक्त्वा यादौ महीमिमाम् अत्रापि सम्पदतुला हरिसेवाप्रसादतः अनिच्छया कृतेनापि सेवनेन हरेर्मुने प्राप्तमी दृग्भलं विप्रदेवानामपि दुर्लभम् इच्छया राघ्यविश्वेश्व्यं भक्तिभावेन प्राप्स्याव परमं श्रेय इति हेदुर्निरूपितः अवशेनापि यत्कर्मकृतं स्यात् सुमहद्भलं जायते दे भूमि देवेन्द्र किं पुनः श्रद्धया कृतं एतदुक्तं निशम्यसौ समुनीन्द्रो विभण्टकः प्रशस्य तौ दु प्रययौ तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः परिचर्यादु तु सर्वेषां कामधेनोपमा स्मृदा हरिपूजाभराणां तु हरिरेव सनातनः ददाति परमं श्रेय सर्वकामफलप्रदः य इदं पुण्यमाख्यानं सर्वपापप्रणाशनं पठे शृणुयाद्वापि सोभियादिपरामृतिम् इति श्रीबृहन्नारदपुराणे पूर्वभागे प्रथमपादे सुमति भूपकथावर्णनं नाम विंशोऽध्यायः ओम्